तन्ते वनगतम् दृष्ट्वा कस्मान् मन्युर्न वर्धते श्यामम् बृहन्तम् तरुणम् चर्मीणामुत्तमम् ऋणे न ते वने दृष्ट्वा अकस्मान् मन्युर्न वर्धते दर्शनीयञ्च शूरञ्च माद्रीपुत्र युधिष्ठिर सहदेवं वने दृष्ट्वा कस्मात् पार्थिव न कुलम् सह देवञ्च अदुःखार्हौ मनुष्येन्द्र कस्मान् मन्युर्न वर्धते द्रुपदस्य कुले जाताम् स्नुषाम् पाण्डोर्महात्मनः धृष्टद्युम्नस्य भगिनी वीरपत्नी मनुव्रतां। मां वै वनगताम् दृष्ट्वा कस्मात् क्षमसि पार्थिव नूनञ्च तव वै नास्ति सत्तम यत्ते भ्रातृंश्च माञ्चैव दृष्ट्वा न मनः न निर्मन्यु लोके निर्वचनम् श्रुतम् तदद्यत्वयि पश्यामि क्षत्रिये विपरीतवत् यो न दर्शयते तेज क्षत्रियः काल आगते सर्वभूतानि तम् पाठ सदा परिभवन्त्युत तत्त्वया न क्षमाकार्या शत्रून् प्रतिगतम् च तेजसैव हि ते शक्या निहन्तुन्नात्र संशयः तथैव यक्षमाकाले क्षत्रियो नोपशाम्यति अप्रियः सर्वभूतानाम् सोमुद्रेह च नश्यति श्री महाभार वनपर्वि अर्जुनागमन पर्व द्रौपदी पीतापवाक्ये सप्त